नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र अद्य विषयः अस्ति अस्माकं जीवने प्रतिदिनं यदा वयं कार्यं कार्याणि कुर्मः तदानीं तत्र सत्कर्म अपि असत्कर्म अपि वयं कुर्मः यदा असत्कर्म कुर्मः तदानीं तत्र तेन पापं भवति तर्हि तदानीमपि यदा द्वितीयवारं तादृश तादृशसन्दर्भः भवति तदानीमपि पुनः अपि एतादृशव्यवहारः अपि भवितुमर्हति पूर्वं यथा कृतं या पूर्वं य यः दुर्व्यवहारः कृतः अस्ति तादृशव्यवहारः पुनः अपि भवितुम् अर्हति अस्माकं जन्म अस्मिन् भूमौ तु पूर्वजन्मसंस्कारवशात् एव जन्म जातं तर्हि पूर्वं यादृशसन्दर्भाः आसन् यत्र अस्माकं तत्र एकरीत्या व्यवहारः आसीत् तेन पापकर्म जातं तर्हि इदानीं पुनः तादृशः एव अवसरः अस्ति चेत् पुनः अपि तथैव वयं कर्तुम् अर्हामः तादृशकर्म एव पुनः कर्तुम् अर्हामः तदेव वयं वदामः अभिनिवेशः इति वदामः अभिनिवेशः इत्युक्ते पुनः पुनः स एव तदेव सत् असत्कर्म कुर्मः येन पापं जायते तर्हि एतादृशव्यवहारात् कथं तत्र मोक्तुं कथं तत्र मोक्तुं कथं शक्यते एतादृशव्यवहारात् मोचनार्थम् उपायः कः इति प्रश्नः तर्हि तदर्थं तत्र किं कर्तव्यम् इति चेत् अस्माकं यद् मनः वर्तते तत् तद् तस्य अन्य इत्युक्ते उचित दिशि उचितदिशि मनसः आनयनम् इत्युक्ते प्रापर् डैवर्षन् इति वक्तुं शक्नुमः यदा अन्यदिशि अस्माकं मनः नियन्त्रितम् अथवा आनीतं तदानीं किं भवति इति चेत् झटिति अस्माकं मनः शुद्धं भवति पवित्रं भवति तर्हि एतादृश नियन्त्रणम् एकक्षणम् एतादृशनियन्त्रणं कथं कर्तुं कथं शक्यते इति चेत् अत्र त्रयः विषयाः सन्ति श्रवणं मननं निधिभ्यासनम् इति बहु बहु मुख्यविषयः अस्ति शब्देन वक्तुं न शक्नुमः तावत् तत्र मौल्यं वर्तते महान् विषयः अस्ति मनसः नियन्त्रणं कथं कर्तुं शक्यते मनसः कृते उचितमार्गः कथं दातुं शक्यते इति चेत् तत्र श्रवणं मननं निधिध्यासनं बहु आवश्यकमस्ति श्रवणमिति यदा वयं वदामः तदानीं सर्वदा अस्माकं मनसि एतादृशभावना भवेत् यत् येत। यत्किमपि अहं शृणोमि यत्किमपि अहं शृणोमि तत्तु हरेः विषये भवेत् यत् यद् अहं तद् हरिकथा भवेत् हरिकथां विहाय अन्यत् किमपि अहं न शृणोमि यतोहि अन्यविषयाणां तत्र महत्त्वं महिमा महिमा सीमिता वर्तते अन्यविषयाणां तत्र जगति विषयाः सन्ति तेषां महिमा तु सीमिता वर्तते इदानीम् अस्ति महिमा श्वः न भवेत् समाप् महिमा समाप् महिमायाः समाप्तिः अपि भवितुम् अर्हति यतो हि जगति विषयाः सन्ति ये यानि वस्तूनि सन्ति तानि सर्वाणि अपि तात्कालिकानि इदानीम् इदानीं ते सन्ति श्वः भवितुम् अपि अर्हन्ति अपि न नापि भवितुम् अर्हन्ति निरन्तरं तेषां वासः नास्ति तेषां महिमा सर्वदा वर्तते इति नास्ति तेषां महिमायाः समाप्तिः भवितुम् अर्हति अतः तादृशवस्तूनां विषये अहं न शृणोमि इति एतादृशदृढसङ्कल्पः मनसि भवेत् किम् अहं शृणोमि इति चेत् केवलं अरेः महिमायाः विषये एव अहं शृणोमि किमर्थम् इति चेत् अरेः महिमायाः अन्तः नास्ति अन्तः नास्ति यदि एतादृशनियन्त्रणं नास्ति मनसः नियंत्रणं नास्ति उचितमार्गे आनयनं नास्ति तदानीं तत्र किं भवति इति चेत् लौकिकविषयेषु एव मनः संलग्नं भवति तदानीं पुनः पुनः अभिनिवेशः भवति पुनः पुनः पापमार्गे मनः गच्छति यता पूर्वं पापकर्मकृतं कृतं तादृशमेव पुनः अनन्तरमपि कर्तुं शक्नुमः इत्युक्ते अस्माकं मनसि तादृशसंस्काराः संस्काराः सन्ति तदानीम् एव पुनः तादृशव्यवहारः भवति खलु संस्कारः वर्तते इति कृत्वा पुनः व्यव तादृशव्यवहारः भवितुम् अर्हति तदेव अभिनिवेशः इति वयं वदामः तर्हि तस्य अभिनिवेशात् मोचनार्थम् उपायः कः इति चेत् एकं तु श्रवणं तर्हि मनसि दृढसङ्कल्पः भवेत् यत् यत्किमपि अहं शृणोमि तद् हरिकथायाः विषये भवेत् श्रवणम् इत्युक्ते हरिकथायाः श्रवणम् तद्विहाय अन्यत् किमपि नास्ति तर्हि तद् अभवत् श्रवणं तत् श्रवणम् इदानीं द्वितीयमस्ति मननं मननम् इत्युक्ते किम् इति चेत् पुनः पुनः तत्र कश्चन मन्त्रः अस्ति तस्य पुनः पुनः उच्चारणं पुनः पुनः उच्चारणं मननम् इति वयं वदामः तर्हि मन्त्रस्य पुनः पुनः उच्चारणं मन मननम् तर्हि इदानीं प्रश्नः अस्ति मन्त्रः मन्त्रः कः भवेत् कस्य विषये मन्त्रः भवेत् कस्य कस्य विषयस्य कस्य वस्तुनः मननम् अस्माभिः करणीयम् इत्युक्ते तादृशवस्तुनः मननम् अस्माभिः करणीयं येन शारीरिक शारीरिकमानसिक आध्यात्मिकबन्धनात् मुक्तिः भवति तस्यैव मननं करणीयं तादृशवस्तुनः मननं करणीयं तादृशसत्ता का येन मनः बन्धनात् मुक्तः भवति मनः मुक्तं भवति इति चेत् तादृशसत्ता तु एका परमात्मा केवलं परमात्मनि एव तादृशसामर्थ्यं वर्तते येन अस्माकं मनः मुक्तं बन्धनात् मुक्तं भवितुम् अर्हति मनः एव कारणं बन्धमोक्षयोः अतः अस्माकं बन्धनात् मुक्तिः केवलं अस्माकं मन्त्रः तत्र मन्त्रस्य विषयः परमात्मा भवेत् मनन् म मन मननात् किं भवति इति चेत् परमात्मा अस्माकं आश्मा, रक्षणं करोति अस्माकं मुक्तिः भवति शारीरिकमानसिक आध्यात्मिकबन्धनात् मुक्तिः भवति वयं जानीमः यत् मनसः तादृशस्वभावः अस्ति यस्य विषये चिन्तनं करोति तद्वत् भवति यादृश यादृशभावना यस्य सिद्धिः तादृशी भवति तर्हि मनसः ध्येयवस्तु का भवेत् इति चेत् परमपुरुषः परमपुरुषः एव मनसः ध्येयवस्तु भवेत् इत्युक्ते यस् इदानीं मननं मननं कर्तव्यम् इति उक्तं मननार्थं तत्र मन्त्रः अपेक्षितः अस्ति तर्हि यस्य कस्यापि विषयस्य मन्त्रः इति नास्ति परन्तु मन्त्रस्य विषयः परमात्मा भवेत् किमर्थं मन्त्रस्य विषयः परमात्मा भवेत् इत्युक्ते परमात्मा मन्त्रस्य विषयः भवति चेत् बन्धनात् मुक्तिः भवति यदि अन्यवस्तु मननस्य विषयः मन्त्रस्य विषयः भवति तदानीं तत्र अन्येषां हानिः भवितुम् अर्हति अन्येषा अन्येषां कल्याणं न भवितुम् अर्हति अतः तादृशवस्तु तत्र मन्त्रः न भवितुम् अर्हति परमपुरुषः एव मन्त्रः भवितुम् अर्हति अन्यवस्तु मन्त्रस्य विषयः न भवितुम् अर्हति अतः इदानीं अभिनिवेशात् मोक्तुं प्रथमम् आसीत् श्रवणं द्वितीयम् आसीत् मननं मनने मन्त्रः भवेत् तादृशमन्त्रस्य पुनः पुनः पुनः पुनः उच्चारणं भवेत् मन्त्रस्य विषयः परमात्मा भवेत् अनन्तरं तृतीयमस्ति निधिध्यासनं श्रवणं मननं निधिध्यासनं तर्हि श्रवणार्थं हरिकथा इत्युक्तं मननं हरिमननं परम परमपुरुषः ध्यानस्य विषयः भवेत् चिन्तनस्य विषयः भवेत् इदानीं निधिध्यासनं निधिध्यासनम् इत्यस्य बहवः अर्थाः सन्ति परन्तु अत्र उचितः अर्थः कः इति चेत् मनसि बह्व्यः वृत्तयः सन्ति बह्व्यः वृत्तयः सन्ति बह्व्यः भावनाः सन्ति तर्हि तादृशवृत्तिभ्यः भावनाप्यह, मनस मनः मनसः एकाग्रीकरणम् एकस्मिन् बिन्दौ आनयनम् एव निध्यासनम् इत्युक्ते मनसि बह्व्यः वृत्तयः सन्ति तेषु वृत्तिषु एका वृत्ति परमपुरुषं प्रति गच्छति तर्हि अन्येभ्यः वृत्तिभ्यः मनसः नियन्त्रणं इत्युक्ते अन्येशाम् वृत्तीनां निराकरणं कृत्वा मनः एकाग्रम् एकस्मिन् बिन्दौ एकाग्रीकरणं कृत्वा परमपुरुषस्य परमपुरुषं प्रति चिन्तनम् एव निधिध्यासनं रिमूविङ्ग् आल् दि अदर् डैवर्शन् फ्रोम् द मैण्ड् एण्ड् चानलैसिङ्ग् द मैण्ड् टुवर्ड्स् परमपुरुषं परमपुरुषः दट् इस् वाट् इस् निधिध्यासनम् अनन्य ममता विष्णुर्ममता प्रेमसङ्गता अन्येभ्यः वस्तुभ्यः तत्र अस्माकं या भावना अस्ति तस्याः निराकरणं कृत्वा मनः परमात्मानं प्रति मनः परमात्मानं प्रति गण गन्तव्यं मनः तदेव तत्र प्रेमभक्तिः इति वयं वदामः निधिध्यासं तस्मात् एव भवति तादृशप्रेमभावात् निधिध्यासनं भवति तदानीमेव एकाग्रीकरणं भवति एकस्मिन् बिन्दौ मनः तिष्ठति स्थित्वा एकस्मिन् बिन्दौ स्थित्वा परमात्मा परमात्मा मनः गच्छति तदेव निधिध्यासनं तर्हि अभिनिवेशः इति इति इत्युक्ते तत्र यद्वयं स्वेच्छया स्वेच्छया किमपि कार्यम् अनुचितं कर्म कुर्मः पुनः पुनः कुर्मः तादृश अनुचित कर्मणः रक्षणं कथं भवितुम् अर्हति इत्युक्ते तस्मात् त्राणं त्राणस्य उपायः कः इति चेत् मनसः कश्चन विषयः भवति आश्रयः भवति मनसः आलम्बनं भवेत् मनस् मनसि एक एकम् भवेत् तदानीमेव मनसः नियन्त्रणं भवितुम् अर्हति तदानीमेव परमात्मानं प्रति मनः गन्तुं शक्यते तदर्थम् अत्र त्रयः विषयाः श्रवणं मननं निधिध्यासनम् इति त्रयः विषयाः बहु बहु मुख्याः तर्हि अभिनिवेशस्य औषधं किम् इति इदानीम् अत्र प्रश्नः तत्र उत्तरम् उक्तं श्रवणं मननं निधिध्यासनम् इति तर्हि इदानीम् अस्माकं जन्मतु तु परमात् परमात्मतः एव अस्माकं जन्म जातं तर्हि अत्र चिन्तायाः विषयः नास्ति भीतिः मास्तु तर्हि कथम् अत्र संसारसागरस्य तरणं कथं भवति अभिनिवेशात् मुक्तिः कथं भवति मयि तादृशसामर्थ्यं नास्ति खलु इति एतादृशप्रश्नाः भवितुम् अर्हन्ति अथवा भयं भयमपि भवितुम् अर्हति तर्हि सर्वदा चिन्तनीयं यत् अस्माकं जन्म अस्माभिः किमपि न कृतं जन्म प्रापणार्थं जन्म एवमेव अभवत् यतो हि परमात्मा इच्छति अस्माकं जन्म भवतु इति कृत्वा अस्माकं जन्म जातम। तर्हि यदा जन्म जातम् अस्माकम् इच्छां विना जन्म जातं तर्हि अभिनिवेशात् अभिनिवेशात् अस्माकं अभिनिवेशात, अभिनिवेशात अस्मा रक्षणं कथं भवति रक्षणस्य उपायः कः इति चेत् स्वयं परमात्मा एव रक्ष तत्र रक्षणस्य उपायमपि ददाति यदि रोगः अस्ति जगति तर्हि रोगस्य औषधमपि परमात्मा एव ददाति तर्हि अभिनिवेशरूपी यः रोगः तादृशरोगेण जनाः त्रस्ताः सन्ति तर्हि तस्य उपायः तस्य औषधं किम् इति चेत् श्रवणं मननं निधिध्यासनं श्रवणं मननं निधिध्यासनम् अतः यदा कदापि समयः लभ्यते यदा वयं किमपि गृहकार्यं कुर्मः इत्युक्ते तत्र गृहेषु बहु बहूनि कार्याणि भवन्ति खलु पाककार्यं वा अन्यत् शुद्धीकरणम् अथवा यत्किमपि कर्म वयं कुर्मः तदानीं तत्र किमपि न श्रुण्मः चेत् मनः इतः ततः गच्छति यस्य कस्यापि विषये चिन्तनं भवति तर्हि तादृशचिन्तनात् नियन्त्रणं कथम् इति चेत् किमपि श्रोतव्यं किं श्रोतव्यम् इति चेत् परमात्मनः विषये श्रोतव्यं हरिकथां हरिकथा श्रोतव्या नो चेत् हरेः मननं मन्त्रस्य उच्चारणं पुनः पुनः मन्त्रस्य मं, उच्चारणं करणीयं नो चेत् निधिध्यासनं करणीयम् इति कृत्वा तत्र मनसः विषयः सर्वदा परमात्मा यदा भवति तदानीं मनः इतः ततः न गच्छति इत्युक्ते प्रतिदिनं सर्वदा साधना सादना, साधना साधनां तु कर्तुं न शक्नुमः खलु सर्वदा उपविश्य साधनां कर्तुं न शक्नुमः अस्माकं जीवने व्यवहारः अन्ये व्यवहाराः अपि गृहे कार्याणि सन्ति एतत् सर्वम् अस्ति इति कृत्वा सर्वदा साधना न शक्यते अतः यदा साधना न क्रियते तदानीं श्रवणं मननं निदिध्यासनं बहु बहु मुख्यविषयः अस्ति सर्वदा चिन्तनम् अस्माकं चिन्तने परमात्मा विषयः भवेत् तदानीं तत्र अभिनिवेशरूपि रोगस्य रोगात् मुक्तिः अवश्यमेव भवति अतः मननं श्रवणं मननं निदिध्यासनम् एतत् पुनः पुनः कुर्मः मनसः नियन्त्रणं भवति उचितमार्गे सन्मार्गे आनयनमपि भवति मनसः सन्मार्गे आनयनं भवति अनुचितमार्गे गच्छति मनः सर्वदा मनः एकत्र न तिष्ठति खलु उपरि गच्छति अधोभागे गच्छति प्रायेण अधोभागे एव गच्छति यतोहि लौकिकविषयेषु मनः संलग्नम् अस्ति चेत् मनः अधोभागे एव गच्छति तर्हि उचितमार्गः सन्मार्गः कथम् सन्मार्गः कथं प्राप्यते इति चेत् श्रवणेन मननेन निधि एव सन्मार्गः प्राप्तव्यः इति विषयः अस्ति तेन अभिनिवेश अभिनिवेशरूपी रोगस्य रोगात् मुक्तिः लभ्यते अस्तु इति एतावत् इष्टवती अस्मिन् विषये कोऽपि संशयः वा प्रश्नः वा अस्ति नास्ति चेत् तत्र करपत्रं प्रति गच्छामः मम कनेक्षन् भग्नः जातः पुनः लागिन् करोमि तिष्ठतम् अस्तु तर्हि इदानीम् अस्माकं विषयः अस्ति अस्ति ध्वनिः अस्ति Okay. तर्हि अत्र अस्माकं विषयः अस्ति करपत्रे अस्मिन् जगति मनुष्याः कथं जीवेयुः इति विषयः अस्ति सृष्टिचक्रे अस्माभिः दृष्टं यत् दशवादने मनुष्याणाम् आविर्भावः भवति मनुष्येषु सम्पूर्णतया चैतन्यस्य प्रतिबिम्बः अस्ति तेषां मनसि इति कृत्वा ते निर्णयं कर्तुं शक्नुमः किम् उचितकर्म किं की, किम् अनुचितकर्म इति ते, ते तु निर्णयं कर्तुं शक्नुमः इति तादृशसामर्थ्यं वर्तते तेषु अपि च उचितकर्म कर्म, इति तु सापेक्षिकमस्ति खलु सापेक्षिकम् अस्ति तत्र सापेक्षिकं कस्य अपेक्षया इति चेत् अस्माकं यत्र अस्माकं जन्म जातं तत्र संस्काराः सन्ति अस्माकं वातावरणमस्ति परिवारस्य वातावरणं कुत्र अस्माकं पालनं पोषणम् अभवत् तत्र वेल्यू सिस्टम् किम् अस्ति तदाधारेण तत्र किम् उचितं किम् अनुचितम् इति वयं ज्ञातुं शक्नुमः इत्युक्ते कस्यचित् तादृशगृहे अस्माकं जन्मजात जातं यत्र सर्वे जनाः दुर्व्यवहारमेव कुर्वन्ति इत्युक्ते प्रतिदिनं दुर्व्य व्यवहारमेव कुर्वन्ति इत्युक्ते अन्यस्य हानिं कुर्वन्ति इत्युक्ते चौर्यकार्यं कुर्वन्ति अथवा अन्यत् अनुचितं कर्म कुर्वन्ति तदानीं तादृशव्य तादृशसन्दर्भे अस्माकं पालनं पोषणं भवति चेत् तदानीं वयं किं चिन्तयामः इति चेत् तादृशकरणमेव उचितकर्म इति वयं चिन्तयितुं शक्नुमः तदेव अस्माकं लक्ष्यम् इति वयं चिन्तयितुं शक्नुमः परन्तु तस्य अपेक्षया यदि अस्माकं जन्म तादृशगृहे जातं यत्र सर्वे जनाः साधकाः सन्ति तर्हि तदानीं वयं लोकहितार्थं वयं प्रयासं कुर्मः जगत्कल्याणार्थं प्रयासं कुर्मः अतः किम् उचितं किम् अनुचितम् इति कथं ज्ञातुं शक्नुमः इति एकः प्रश्नः आसीत् सुचित्रभिन्याः इति मन्ये तत्र किमुचितम् अनुचितम् इति तु कम् आधारीकृत्य भवति इति चेत् कुत्र अस्माकं जन्मजातं जातम् अस्माकं वेल्यु सिस्टम् किम् तदाधारीकृत्य एव भवति तत्र सापेक्षिकम् उचितम् अनुचितम् इति सापेक्षिकं सापेक्षिकं कस्यापेक्षया इति चेत् तत्र वेल्यु सिस्टम् इत्यस्य अपेक्षया कुत्र तत्र अस्माकं संस्काराः कथं सन्ति कुत्र जन्मजातं किं करणीयम् इति किमुचितं किम् अनुचितम् इति कथं वयं ज्ञातवन्तः एतावता इत्युक्ते अनुचितव्यवहारे जन्मजातं तत्र अनुचितकर्म एव उचितकर्म इति वयं चिन्तयामः चेत् तदानीं तादृशमेव व्यवहारं कुर्मः अतः गुड् एण्ड् बेड् इस् रिलेटिव् ऐडिया सो uh, so, किं वा वस्तुतः किम् उचितं किम इति अस्माभिः निर्णेतव्यम् अस्माकं मनसि किमपि उचितं किमपि अनुचितम् इति वयं चिन्तयामः चेत् तद् तदानीं तद् अवश्यमेव उचितम् अवश्यमेव अनुचितम् इति अपि नास्ति खलु तर्हि अस्माकं संस्काराः कथं सन्ति तद् आधारिण आधारीकृत्य निर्णयं कुर्मः किम् उचितं किम् इति अतः इदानीं वस्तुतया किं शुभं किम् अशुभम् इति अस्माभिः निर्धारितव्यम् तर्हि अस्माभिः पूर्वमपि चर्चितं यत् यदा सगुणब्रह्म जगतः निर्माणं करोति तदानीं तस्य लीला वर्तते तस्य लक्ष्यं किम् इति चेत् प्रत्येकं जीवात्मनः मुक्तिः एव तस्य लक्ष्यम् अस्ति मोक्षः एव तस्य लक्ष्यम् अस्ति इति कृत्वा एव सृष्टिक्रमे मनुष्याणां चैतन्यं सम्पूर्णतया प्रतिबिम्बितं वर्तते तर्हि तत्र अस्माभिः चर्चितं यत् प्रकृतिः प्रकृतिः तु शक्तिः शिवस्य शक्तिः अस्ति तत्र शिवस्य अधीना वर्तते प्रकृतिः अतः अत्र पुरुषस्य इच्छानुगुणं प्रतिसञ्चरधारायां प्रकृतेः प्रभावः प्र प्रभावस्य न्यूनता भवति प्रभावः न्यूनी भवति प्रतिसञ्चरधारायां क्रमेण तर्हि प पशूनाम् अपेक्षया पक्षिणाम् अपेक्षया मनुष्येषु प्रकृतेः प्रभावः न्यूनः वर्तते परन्तु सम्पूर्णतया प्रकृतेः प्रभावः गतः इति नास्ति यतोहि दशवादनात् द्वादशवादनपर्यन्तम् अस्माकं गमनम् अस्ति परन्तु अन्यजीवानाम् अपेक्षया प्रकृतेः प्रभावः मनुष्येषु जीवात्मनि न्यूना न्यूना प्रभावः न्यूनः वर्तते एतत् सर्वं तु सगुणब्रह्मणः कृपया अस्ति प्रकृतेः वस्तुतः प्रकृतेः स्वभावः तु बन्धनमेव प्रकृतेः स्वभावः सर्वदा बन्धनमेव करोति तर्हि कथं प्रतिसञ्चरधारायां प्रकृतेः प्रभावः न्यूनः भवति कथम् इति चेत् एतत् सर्वं तु एतदपि परमपुरुषस्य इच्छानुगुणं परमपुरुषः इच्छति यद् प्रकृतेः प्रभावः न्यूनः भवति प्रतिसञ्चरधारायां तदर्थमेव उक्तमस्ति अत्र अस्ति यत् अनयोः एतादृशम् अस्ति यद् प्रकृतिः पुरुषस्य विवक्षानुगुणम् इच्छानुगुणं इच्छानुगुणं कार्यं करोति इति कृत्वा प्रतिसञ्चरधारायां प्रकृतेः प्रभावः न्यूनः भवति परमपुरुषस्य कृपया तर्हि तदेव उक्तमस्ति परमपुरुषः अपि प्रकृतिः अनयोः मध्ये एकः एकः सन्धिः भवेत् इति सन्धिः भवेत् इत्युक्ते किम् इति चेत् वयं जानीमः शक्तिः शिवस्य शक्तिः इत्युक्ते द्व द्वयो द्वयोः अङ्गीकरणम् इति एवं रीत्या नास्ति परन्तु पूर्वमेव वयं जानीमः यत् शक्तिः शिवस्य शक्तिः शक्तिः शिवस्य आज्ञानुरोधेन कार्यं करोति इति तदेव तत्र सन्धिः इति अत्र उक्तमस्ति अन्यथा अन्यथा प्रकृतिः तु पुरुषं बन्धनात् न मोच न न मुक्तिं न ददाति पुरुषाय मुक्तिं न ददाति तर्हि प्रतिसञ्चर्धारायां स्थूलात् सूक्ष्मपर्यन्तं गमनं यदा भवति तदानीं प्रकृतिः क्रमेण अस्माकं बन्धनात् मुक्तिं ददाति दशवादने अन्यस्य अपेक्षया प्रकृतिबन्धनं प्रकृति, प्रकृति प्रकृतेः प्रभावः न्यूनः भवति परन्तु सम्पूर्णतया प्रकृतेः प्रभावः गतः इति नास्ति यतोहि अस्माकं यात्रा वर्तते दशवादनात् द्वादशवादनपर्यन्तं यात्रा वर्तते यदा वयं प्रकृतेः नियमा नियमानुगुणं वयं कार्यं कुर्मः तदानीम् अग्रगतिः अपि भवति नियानु नियमानुगुणं कार्यं न कुर्मः तदानीं प्रकृतिः दण्डनमपि ददाति तर्हि अग्रगतिः तदानीं न भवति यत्र प्रकृतेः प्रभावः अन्येषु जीवेषु अधिकः अस्ति तत्र चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति जीवात्मनि चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया अस्ति यतोहि प्रकृतेः प्रभावः न्यूनः वर्तते अन्येषाम् अपेक्षया अतः जीवात्मनि तादृशसामर्थ्यं वर्तते अग्रगतिं प्राप्तुं जीवात्मा झटिति अग्रगतिं प्राप्तुं शक्नोति कथम् इति चेत् तदर्थम् उचितकर्माणि अस्माभिः करणीयानि उचितकर्माणि ता नाम तादृशकर्माणि येन चैतन्यस्य प्रतिबिम्बः प्रतिबिम्बस्य विस्तारः भवति विस्तारः भवेत् इति एकं द्वितीयं प्रकृतेः नियमानुगुणम् एव गन्तव्यं प्रकृतेः विरुद्धे न इति कार्यद्वयं वर्तते एकं तु चैतन्यस्य प्रतिबिम्बस्य विस्तारः इत्युक्ते मनसः विस्तारः यदा मनसः विस्तारः भवति तदानीं प्रतिबिम्बं चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति स्वच्छः भवति अपि च प्रकृतेः नियमस्य भङ्गः न भवेत् एवं रीत्या अस्माकं कर्माणि सन्ति चेत् अवश्यमेव अग्रगतिः झटिति एव भवति तर्हि तादृशकर्माणि एव उत्तमकर्माणि इति वयं वदामः तेन सह सम्बद्धं वर्तते उचितकर्म इत्युक्ते विद्यामाया इति वयं वक्तुं तेन सह सम्बद्धं वर्तते वैराग्यं विवेकः इति विषयद्वयम् इति कृत्वा मुक्तिः अथवा मोक्षं मोक्षः मुक्तिः अथवा मोक्षः प्राप्तव्यः चेत् उचितकर्माणि अपेक्षितानि उचितकर्माणि एव विद्यामाया इति वदामः तेन सह सम्बद्धः वर्तते वैराग्यम् अपि च विवेकः इति विषयद्वयम् तावत् अस्माभिः गतवर्गे प्राप्तमासीत् इदानीं किञ्चित् ततः अग्रे गच्छामः अपि च तत्र शुचित्रभगिन्याः अन्यः एकः प्रश्नः आसीत् किमपि केनचित् वक्तव्यं वा ओके इत्युक्ते तत्र भगिनी नास्ति अद्य परन्तु अत्र भगिन्याः प्रश्नः अस्ति गतवर्गे मया किञ्चित् उक्तं तस्य विषये इतोपि स्पष्टीकर्तुम् इच्छामि इत्युक्ते सुचित्रभगिन्याः प्रश्नः आसीत् ये परिवारजनै जनैः सह वसन्ति अपि च सर्वे जनाः योगनिष्ठजीवने तेषां रुचिः नास्ति तर्हि कथम् अस्माकं व्यवहारः भवेत् इति तत्र क कथम् अस्माभिः व्यवहर्तव्यम् इति प्रश्नः आसीत् वस्तुतः अयं विषयः महान् विषयः अस्ति अत्र बहु किमपि वक्तव्यम् अस्ति तर्हि अत्र कथं सामान्यतया मार्गदर्शनं कथम् अस्ति साधकानां यदा साधकाः ये जनाः साधकाः न सन्ति तैः सह वासं कुर्वन्ति तदानीं कथं व्यवहारः भवेत् इति प्रश्नः तर्हि इत्युक्ते अस्माकं विवाहः न जातः चेत् तदानीं तत्र भिन्नविषयः अस्ति यतोहि तदानीं तत्र अस्माकं अ... अस्माकं स्वेच्छा अधिकम् अस्ति अतः अत्र जनाः ये जनाः सन्ति तैः सह अस्माकं क्लेशः अस्ति चेत् तदानीं तु तादृश अनुकूलवातावरणस्य निर्माणं वयं कर्तुं शक्नुमः क्लेशः अधिकाः न भवन्ति तर्हि तादृशनाः ता येषां ये जनानां विवाहः न जातः ते आ, सावधानतया भाव्यं सावधानतया तैः गन्तव्यं यतोहि केन सह तेषां विवाहः भवेत् इत्यत्र सावधानता भवेत् किमर्थं चेत् यदा यतोहि इत, ते तेषां हस्ते तत्र स्वेच्छा वर्तते इत्युक्ते मम विवाहः तादृशपुरुषेण एव तादृशमनुषेन एव भवेत् यः साधकः भवेत् इति तादृशनिर्णयं वयं कर्तुं शक्नुमः इति कृत्वा तत्र जाटिल्यम् अधिकं नास्ति परन्तु येषां जनानां विवाहः जातः अपि च तेषु केचन जनाः साधकाः सन्ति अन्ये जनाः साधकाः न सन्ति तदानीम् अत्र विचारः भिन्नः एव इत्युक्ते अत्र प्रथमतया अत्र किं वक्तव्यम् इति चेत् तत्र योगनिष्ठजीवनम् इत्युक्ते परिवारस्य भङ्गः इति नास्ति इत्युक्ते आदौ एव योगनिश्च जीवने अहं प्रवेशं प्राप्नोमि इति कृत्वा मम अनेन सह यः सम्बन्धः आसीत् तस्य त्यागः इति नास्ति इति तथा तत्र तथा मम विवक्षा नासीत् गतवर्गे अपि अत्र परिवारस्य भङ्गः इत्यपि विषयः नास्ति इत्युक्ते तत्र परिवारेव एव वयं भवामः सर्वदा वयं वदामः वयं हिमालयं न गच्छामः इति वदामः खलु वयं परिवारे एव वसामः यतोहि अत्र अत्र अस्माकं लक्ष्यं सर्वे जनाः मिलित्वा व वसन्तु इत्येव परिवारजनानां त्यागः इति नास्ति परन्तु तर्हि यावत्पर्यन्तं शक्यते वयं प्रयासं कुर्मः अन्येषां जनानाम् अपि अत्र रुचिः भवतु इति तदर्थं वयं प्रयासं कुर्मः इत्युक्ते तदर्थं किं कुर्मः इत्युक्ते अन्यजनः परिवारजनः अस्य विषये तेषां रुचिः नास्ति इति चेत् वयं शनैः किं कुर्मः इति चेत् प्रथमतया भोजनस्य विषये किञ्चित् किञ्चित् परिव परिवर्तनं वयं कर्तुं शक्नुमः भोजनस्य विषये परिवर्तनं कथम् इति चेत् तत्र स्वास्थ्यम् आधारीकृत्य इत्युक्ते अद्यत्वे सर्वे जनाः रोगेण पीडिताः सन्ति रोगेण पीडिताः सन्ति सर्वे रोगे रोगेभ्यः मुक्तिं प्राप्तुम् इच्छन्ति खलु तर्हि एतादृश सात्विकाहारं स्वीकुर्मः चेत् तदानीं रोगात् मुक्तिः तु अवश्यं भवति अतः तदाधारेण वयं तेषां तदाधारेण तेषां बोधः भवतु इति कृत्वा शनैः आहारस्य विषये वयं नियनं नियमनं कर्तुं शक्नुमः इत्युक्ते प्रथमतया जनाः सर्वं खादन्ति यत्किमपि इच्छानुगुणं खादन्ति परन्तु यदा रोगाः आगच्छन्ति तदानीं किं कुर्वन्ति इति ओ इदानीं वैद्यः वदति एतद् मा एतद् मा खादतु तदानीं ते परिवर्तनं कर्तुं केचन जनाः इच्छन्ति ओ इदानीं रोगः आगतः इति कृत्वा ओ अस्य भोजनस्य त्यागं करोमि अस्य भोजनस्य त्यागं करोमि इति ते चिन्तयन्ति परन्तु किमर्थं तावत्पर्यन्तं प्रतीक्षा करणीया रोगस्य रोग रोगः यदा आगतः तदानीमेव अहं परिवर्तनं करोमि इति नास्ति इत्युक्ते अद्य अद्यत्वे सर्वेषां किञ्चित् बोधः अस्ति स्वास्थ्यस्य विषये बोधः अस्ति तथापि तस्य निराकरणं कुर्वन्ति इति वार्ता परन्तु इदानीं तत्र आहारस्य विषये यदा वदामः तदानीं रो स्वास्थ्यम् आधारीकृत्य यदा प्रतिपादनं कुर्मः ते अपि अवगच्छन्ति इदानीं तत्र यता तत्र डेरी प्राडक्ट्स् दुग्धं घृतम् इत्यादिकं तस्य सेवनेन अस्माकं हानिः भवति इत्येव यदा वयं वदामः वदा अपि च तत्र पशूनां किं गो गा, तत्र गोः तत्र हिंसा भवति पालने हिंसा भवति एतत् सर्वं तत्र यद् चित्रमासीत् यूट्यूब यूडे मध्ये वीडियो मध्ये तस्य दर्शनं कुर्मः चेत् ते अपि अवगच्छन्ति इति तथा वयं कर्तुं शक्नुमः अपि च व्यायामस्य विषये वयं बोधयितुं शक्नुमः तत्र तेषामपि इच्छा भवितुम् अर्हति आसनानां विषये योगासन योगस्य विषये सर्वेषां आसनानां विषये सर्वेषां रुचिः अस्ति तत्र तेषाम् आनयनं शक्यते इति कृत्वा क्रमेण अस्माकं प्रयासः भवति शनैः शनैः प्रवा प्रयासः भवति इत्युक्ते अत्र त्रयः मुख्याः विषयाः सन्ति प्रथमतया वयम् अस्माकं व्यवहारे तत्र नियन्त्रितव्यवहारं कुर्मः योगनस्य जीवने इत्यस्य विषये वयं तु अभ्यासः स्वभावः अस्माकं प्रथमतया भवेत् तदनन्तरं सत्सङ्गः अपेक्षितः अस्ति सत्सङ्गः यदा भवति तदानीम् अग्रगतिः भवति यदि य यदा अस्माकं जीवने प्रवेशः जातः अनन्तरं सत्सङ्गः नास्ति चेत् तद् तदानीम् अस्माकं कदाचित् तत्र किं बोर्डम् आगन्तुं शक्यते तदानीं तत्र वयं योगनस्य जीवनस्य त्यागमपि कुर्मः इति तथा मा भूत् इति कृत्वा सत्सङ्गः बहु आवश्यकः अस्ति सत्सङ्गः अस्ति चेत् तत्र एवमेव एव कुर्वन्ति इति कृत्वा अस्माकमपि प्रोत्साहनं भवति इत्युक्ते एतावता अस्माकं वर्गे ये जनाः सात्विकाहारस्य आनयनं न स्वयं स्वतन्त्रतया कर्तुं तेषाम् अधिक अभिरुचिः नास्ति अथवा प्रोत्साहनं नास्ति चेत् तदानीम् एकः उपायः अस्ति यदि तादृशजनाः अस्माकं वाराणसीशिबिरे शिबिरे आगच्छन्ति तदानीं सर्वे जनाः एवमेव एव कुर्वन्ति अन्यभोजनं न उपलभ्यते तदानीम् अस्माकमपि अभ्यासः भवितुमर्हति तेन अस्माक अस्माकं प्रोत्साहनं भवितुमर्हति इति तादृशः एकः उपायः अस्माकं गृहजनाः न यच्छन्ति चेत् भोजनस्य परिवर्तनं कर्तुं तदानीं ते अपि शिबिरं प्रति आगच्छन्तु तदानीं तत्र अस्माकम् अभ्यासः भवितुमर्हति प्रोत्साहनं भवितुमर्हति इति एकः मार्गः अस्ति यदि अस्माभिः प्रयासः कृतः अस्ति परिवारजनस्य परिवर्तनार्थं परन्तु ते न कुर्वन्ति इति चेत् अन्ये जनानां सहायमपि वयं स्वीकर्तुं शक्नुमः ये अस्मिन् विषये बहु प्रतिष्ठिताः सन्ति बहु अग्रगतिं प्राप्तवन्तः तेषां साहाय्यं वयं स्वीकर्तुं शक्नुमः परिवारजनस्य वर्धनार्थम् उन्नयनार्थम् इति तदपि भवितुमर्हति इत्युक्ते परिवारेण सह एव वयं वसामः परिवारात् अन्यत्र गच्छामः इति नास्ति परन्तु यदा कदाचित् एवम् अपि भवितुम् अर्हति यदा तत्र आ, आ, तत्र पतिपत्नी पति पतिः अस्ति पत्नी अस्ति तयोः ता मध्ये तादृशसम्बन्धः सम्यक् समीचीनः सम्बन्धः नास्ति यः पतिः अस्ति सः पत्ने पत्नेः अग्रगतिम् अग्रगति अग्रगतिम् अग्रगतेः अस्ति इत्युक्ते सा योगनिश्च जीवने मा भवतु इति तथा स चिन्तयति चेत् तादृश एक्स्ट्रीम् सर्कम्स्टान्सेस् मध्ये तदानीमेव परिवारस्य त्यागः इत्यस्य विषये चिन्तनं तत्तु लास्ट् रिसार्ट् सामान्यतया तथा न चिन्तनं न कुर्मः परिवारस्य भङ्गः इति विवक्षा नास्ति परिवारेण सह एव वयं वासं कुर्मः अपि च तत्र बालकाः सन्ति शिशवः सन्ति चेत् तत्र इतोपि अधिकचिन्तनं भवति इत्युक्ते इत्युक्ते तत्र परिवारस्य त्यागः इत्युक्ते तत्र किं किं विवक्षितम् इति चेत् एकस्मिन्नेव गृहे वयं वसामः परन्तु अस्माकं व्यवहारः भिन्नः भवेत् अन्यजनाः भिन्नरीत्या व्यवहारं कुर्वन्ति इति कृत्वा वयमपि तथैव व्यवहारं कुर्मः इति नास्ति अस्माकं व्यवहारः भिन्नः भवेत् एकस्मिन् गृहे एव वयं वसामः परन्तु अन्येषां रुचिः नास्ति अस्माकं रुचिः अस्ति चेत् तदानीं वयम् अस्माकं लक्ष्यं न त्यजामः इत्येव विवक्षा आसीत् अस्माकं लक्ष्यं न त्यजामः एकस्मिन् गृहे एव परन्तु तथापि पृथक् वसामः पृथक् वसामः अन्येषां सह वसामः इति नास्ति अन्ये जनाः अन्यत् यत्किमपि कुर्वन्ति तेन सह वयमपि कुर्मः इति नास्ति अस्माकं वर्धनम् अवश्यं भवेत् अस्माकं प्रतिष्ठा भवेत् योगनस्य जीवने अस्माकं प्रतिष्ठा भवेत् प्रतिष्ठा अस्ति चेत् अग्रगतिः अवश्यं भवति अन्ततो गत्वा यदा अस्माकं वर्धनं भवति तदानीम् अन्ये जनाः अपि प्रोत्साहिताः भवितुम् अर्हन्ति अपि च यदा तत्र यदा गृहे ये साधकाः सन्ति ते तत्र धनस्य विषये अन्यस्य अपेक्षां कुर्वन्ति ते कश्चन साधकः अस्ति सः कार्यं करो न करोति तस्य धनं स्वस्य धनं नास्ति अन्यः पतिः पतिः एव ददाति इति तादृशमस्ति चेत् तत्र भिन्नवार्ता अस्ति इतोऽपि भिन्नवार्ता अस्ति तत्र इतोपि चिन्तनं करणीयम् यत्किमपि भवतु परन्तु अन्ततो गत्वा वयं स्वयं पाकं कुर्मः अस्माकं कृते येन तत्र यत्किमपि वयं स्वीकुर्मः तत् सात्विकाहारः एव भवेत् यद्यपि अन्येषां रुचिः नास्ति तर्हि वयं स्वयं भोजनं कुर्मः अस्माकं कृते अतः वयं जानीमः किम् अस्माकं शरीरे गच्छति इति वयं जानीमः यदि तत्र गृहे सात्विकवातावरणं नास्ति सा साधनां कर्तुं तर्हि तदानीं वयं बहिः अपि गन्तुं शक्नुमः बहिः गत्वा वृक्षस्य अधः उपविश्य अपि साधनां कर्तुं शक्नुमः अतः बहु किमपि अधिकं कर्तुं शक्नुमः अत्र एतावता ये अंशाः उक्ताः ते एव अंशाः सर्वत्र प्रय तत्र ते अंशाः प्रयुज्यन्ते इति तु नास्ति इत्युक्ते तत्र दृष्ट्वा वयं निर्णयं कुर्मः परन्तु यावत् यावत् शक्यते वयम् अधिकमधिकं प्रयासं कुर्मः परिवारजनेन सह तत्र प्रयासं कुर्मः अत्र अत्र यद् लाभदायकविषयाः सन्ति तेषां विषये प्रतिपादनं कुर्मः इति कृत्वा तेषामपि अग्रगतिः भवतु इति इतोपि तत्र स्पष्टीकर्तुम् इस्तवर, इष्टव इष्टवती गतवर्गात् अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा तर्हि इदानीं पत्रं प्रति गच्छामः इदानीं वैराग्यम् इतितः आरभ्य पठनीयम् ओके वैराग्यमिति आरभ्य किं सरितबद्नि पठति वैराग्यम् वैराग्यं सामान्यतया संसारात् निवृत्तिः अपि च अतितपः कृत्वा कठोरत्यागेन जीवनयापनम् इत्यस्मिन् अर्थे अवगम्यते वैराग्यम् इत्यस्य एवम् अर्थः नास्ति वैराग्यं कश्चित् एकान्तवासिनं न करोति वैराग्यम् कञ्चित् एका एकान्तवासिनं न करोति वैराग्यम् इत्युक्तौ केवलम् वस्तूनाम् उचित उपयोगस्य ज्ञानम् अपि च तेषाम् उचितप्रयोगम् कर्तुं प्रयत्नः अवश्यं मनसः स्थूलानां विषयाणां नियन्त्रणे कार्यं विना इत्यर्थः यथा उदाहरणत्वेन मद्यम् एकं मादकद्रव्यं यत् शरीरमनसोः विषये हानिकारकम् अस्ति अतः हा, मद्यस्य मादकत्वेन प्रयोगः त्यक्तव्यः यदा वैद्याः विविधरोगाणाम् औषधं मद्यम् उपदिशन्ति तदा मादकं मद्यं रोगिणां दुःखनिवारणार्थम् औषधं भवति एवं तदेव मद्यम् स्वस्य प्रयोगभेदद्वारा हानिकार हानिकारकमादकद्रव्यात् उपयोग औषधरूपेण स्वस्य चरितम् परिवर्तयति मद्यस्य औषधत्वेन प्रयोगः एव तस्य उचितः उपयोगः अस्ति यः कोऽपि औषधरूपेण मद्यस्य प्रयोगम् करोति सः मद्यस्य प्रभूतप्रभावे आत्मानम् न स्थापयति वस्तुनः सम्यक् प्रयोगः एव वैराग्यं वैराग्यविचारान्तर्गते कस्यचित् वस्तुनः उचितप्रयोगेण कस्यचित् उचितप्रयोगेण कुत्र गतम् उचितप्रयोगेण कस्यचित् उचितप्रयोगेण उचितप्रयोगेण उचित उचितेन कस्यचित् मनः निरन्तर आकाङ्क्षायाः दासः नरन्तरं स्थूलवस्तुभिः कश्चन अनाकृष्टः चेत् तस्य मनः सूक्ष्मम् भवति मनसः कति सूक्ष्तां प्रति इत्युक्तौ मनसः उपरि प्रकृतेः प्रभावस्य न्यूनता स च मुक्तिं प्रति प्रगतिः यतः मुक्तिः तदा एव सम्भवति यदा कश्चन प्रकृतिप्रभावात् मुक्तः भवति इदानीमस्मिन् परिच्छेदे वैराग्यं किं भवति इति उक्तमस्ति वैराग्यस्य अर्थः इति नास्ति संसारात् निवृत्तिः यतोहि परिवार त्यक्तव्यं संसार इति तु नास्ति अपि च कठोरतपं कृतं वनं गच्छामि तत्र तपं करोति इत्येव वैराग्यस्य अर्थः नास्ति अपि गृहे एव स्थित्वा वस्तुनः सम्यक् उपयोगः यदा कोऽपि करोति सा एव वैराग्यम् इत्युक्ते उदाहरणं दत्तमस्ति यदा कोऽपि मज्जिरायाः प्रयोगं करोति तस्य शरीरस्य मनस च अपि हानिः भवति तदा विनाशाय एव भवति किन्तु यदा वैद्यः कोऽपि औषधार्थं तस्य मार्दकद्रव्यस्य प्रयोगं करोति औषधरूपेण ददाति तत्तु शरीरस्य कृते रोगनिवारणं भवति तत्र तु तया तस्य प्रयोगः विनाशाय नास्ति अपि तु तस्य सदुपयोग एव भवति एवमेव संसारे यः कोऽपि वस्तु अस्ति तस्य विचार विचारं कृत्वा मम अग्रे प्रकृतिः भवति वा न भवति तस्य वस्तु कथं प्रयोगं इति सर्वं विचिन्त्य यदा वस्तूनां भवति तदा मनसः शरीरस्य अपि स्वास्थाय भवति अपि च मनसः अपि प्रगतिः भवति मनः किञ्चित् विकसितं भवति मनः सूक्ष्म जातः एवमेव सर्वाणि वस्तूनि कृते वयम् एवं, एवं चिन्तित्वा एव तेषां प्रयोगं कुर्मः तत्र यदि अस्माकम् उदाहरणार्थं यदि वयं कश्चित् स्नेहा गत्वा तस्य पश्यामः अस्माकं समये व्यर्थं व्यतीतं कुर्मः तदा तस्य समयस्य अपि भवति मनसः को अपि कोऽपि न भवति अपि तु सम्यक् विचार्य समयस्य सदुपयोगं कुर्मः प्रत्येकस्य वस्तुनः सदुपयोगं कुर्मः तदा मनसः अपि प्रकृतिः भवति शरीरस्य अपि स्वास्थाय भवति तदानीमेव वयं कोऽपि साधनां कर्तुं शक्नुमः यदि शरीरः स्वस्थं भवति अपि च सम्यक् विचार्य वस्तूनाम् उपयोगः यदा क्रियते तदा शनैः शनैः मनसः प्रकृतिः भवति यदा मनसः सूक्ष्मः जातः तदैव प्रकृतेः प्रभावः न्यूनं भवति एवं शनैः शनैः वयं मुक्तेः पथे गच्छाम इति सम्यक् भगिनी सम्यक् सम्यक् सम्यक् रीत्या उक्तवती सः एव विषयः अस्ति सः एव भावः अस्ति अत्र वैराग्यम् इति यः शब्दः अस्ति तस्य अर्थः कः इति चेत् विरागस्य भावः वैराग्यम् सामान्यतया वैराग्यम् इत्युक्ते क्रोधः इति अवगच्छन्ति अथवा त्यागः इति अवगच्छन्ति वस्तुतः विरागः वैराग्यम् इत्युक्ते विरागस्य भावः इत्युक्ते रागः इत्युक्ते अत्र क्रोधः नास्ति रागः इत्युक्ते अत्र वर्णः रागः इत्युक्ते अत्र रञ्जनं रञ्जनम् इति अर्थः यदा मनः लोके ये यानि वस्तूनि सन्ति तेभ्यः मनः यदा रञ्जितं भवति तदानीं वैराग्यं नास्ति वैराग्यम् अस्ति चेत् लोके यानि वस्तूनि सन्ति तेभ्यः मनः रञ्जितं न भवति द मैण्ड् इस् नाट् कलर्ड् बै द आब्जेक्ट्स् आफ़् द वर्ल्ड् तादृशभावः एव वैराग्यं जगति एव वयं वसामः परन्तु मनः सर्वदा परमपुरुषेण सह भवति तर्हि तत्र वैराग्यम् इत्युक्ते हिमालयं गत्वा तत्र गुहायां वासः इति नास्ति लोके एव वयं वसामः लोकेन सह व्यवहारं कुर्मः जगतः हितं कुर्मः सेवाभावेन व्यवहारं कुर्मः प्रतिदिनम् एवं रीत्या वयं तत्र लौकिकव्यवहारे व्यवहारे अपि वयं व्यस्ताः भवामः परन्तु मनः सर्वदा तु परमपुरुषेण सह वर्तते मनः सर्वदा परमपुरुषस्य चिन्तनं करोति तेन सह एव वासं करोति येन किं भवति इति चेत् प्रेमभावः वर्तते अनन्यममता अनन्यममता विष्णोर्ममता प्रेमसङ्गता इति कृत्वा अस्माकं प्रेमभावः परमात्मना सह प्रतिदिनं वर्धते तर्हि इत्युक्ते जगति यानि वस्तूनि सन्ति इत्युक्ते तत्र जगति यानि वस्तूनि सन्ति तेषां सर्वदा सर्वथा त्यागं कृत्वा वयं गन्तुं न शक्नुमः परन्तु अत्र कथम् इत्युक्ते कथं लौकिकवस्तुभ्यः अस्माकं विरागस्य भावः कथं भवति इति चेत् यथा कश्चन शिशुः अस्ति सः शिशुः मातुः कार्यानस्य कुञ्चिका अस्ति कुञ्चिका अस्ति तया सह सः शिशुः क्रीडनं करोति यदा माता कुञ्चिकायाः ग्रहणं कर्तुम् इच्छति तदानीं शिशुः रोदिति परन्तु या, या, या माता आ, तत्र बुद्धिमती अस्ति सा किं करोति इति चेत् अन्यक्रीडनकं शिशु शिशोः कृते ददाति तदानीं शिशुः किं करोति इति तत्र कार्यानस्य कुञ्चिकां त्यजति अत्र क्रीडन क्रीडनकेन क्रीडन, क्रीडन, क्रीडन सह सः शिशुः अथवा कन्दुकेन सह सः शिशुः क्रीडति एवं रीत्या जगति यानि वस्तूनि सन्ति तेषां भिन्नभिन्नवर्णाः सन्ति ते अस्मान् आकर्षय ते तानि अस्मान् आकर्ष अस्मान आकर्षयन्ति आकर तर्हि तेषां तेषां त्यागः तु न शक्यते तर्हि कथं तेभ्यः रक्षणं भवति वैराग्यस्य भावः कथं भवति इति चेत् यदा मनः परमात्मानं प्रति गच्छति यथा शिशोः ध्यानं नूतनक्रीडनकं प्रति गच्छति तदानीं पुरातन कुञ्चिका या अस्ति तस्य त्यागः भवति एवं रीत्या यदा अस्माकं मनः परमात्मानं प्रति गच्छति तदानीं किं भवति लोके यानि वस्तूनि सन्ति आकर्षणं न भवति तेषाम् आकर्षणं भवति ते, ते, ते तानि वस्तूनि अस्माकं मनसः रञ्जनं कर्तुं न शक्नुवन्ति तदानीं तत्र स्वभाविकरूपेण तादृशवस्तूनां त्यागः भवति इत्युक्ते यः साधकः साधनां करोति पुरुषे तादृशपुरुषे एतादृशव्यवहारः स्वाभाविकरूपेण भवति तत्र लोके यानि वस्तूनि सन्ति तेषां प्रति रुचिः तत्र न्यू न्यूना भवति तदानीं वयम् अवगन्तुं शक्नुमः प्रत्येकं वस्तुनः उचित उपयोगः कः अनुचित उपयोगः कः इति वयं ज्ञातुं शक्नुमः तदर्थं किं कर्तव्यम् इति चेत् तत्र यथा पूर्वमादौ वर्गस्य आदौ मया उक्तं म श्रवणं मननं निधिध्यासनं साधना एतत् सर्वम् अस्माभिः कर्तव्यं तेन किं भवति इति चेत् मनः सर्वदा परमात्मना सह वर्तते यदा मनः सर्वदा परमात्मना सह वर्तते तदानीं शनैः शनैः शनैः तत्र लोके यानि वस्तूनि सन्ति तेषां रञ्जनं न भवति अस्माकं मनसि तर्हि यदि यदि परमात्मना सह अस्माकं सम्बन्धः नास्ति तदानीं लोके यानि वस्तूनि सन्ति तानि अस्माकम् आकर्षणं तानि वस्तूनि अस्मान् आकर्षयन्ति तेभ्यः रक्षणं तु बहु भवति बहु कठिनं भवति यतोहि वयं जानीमः दैवीः एषा गुणमयी मममाया माया दुरत्यया दुरत्यय बहु दूरत्यया तत्र मायायाः तरणं तत्र सरला नास्ति तरणं सरलं नास्ति तदर्थं तत्र अन्यत् अपेक्षितं मामेव ये प्रबध्यन्ते मामेव ये प्रबध्यन्ते मायाम् एतां तरन्ति ये ते ये जनाः मम शरणे आगच्छन्ति तेषां रक्षणम् अहम् अवश्यं करोमि इति परमात्मा एव आश्वासनं ददाति इति कृत्वा अस्माकं मनः सर्वदा स्वविषयकं भवति मनः सर्वदा मनसि क सर्वदा कश्चन विषयः भवति विषयः लौकिकवस्तु भव भवितुम् अर्हति अथवा परमात्मा भवितुम् अर्हति तर्हि यदि अस्माकं मनसः विषयः लौकिकवस्तु अस्ति चेत् तदानीं परमात्मना सह सम्बन्धः नास्ति तदानीं वस्तूनाम् आकारमेव स्वीकरोति तत्र वस्तुभ्यः आकर्षणं भवति मनसि परन्तु यदा मनसः विषयः परमात्मा अस्ति तदानीं तत्र क्रमेण वस्तुभ्यः आकर्षणम् अपि न्यूनं भवति अन्ततो गत्वा आकर्षणम् एव न भवति अस्माकं मनः वस्तुभ्यः रञ्जितं न भवति तदानीम् अस्माकं मनः परमात्मनं प्रति गाढरीत्या आकर्षितं भवति वैराग्यभावः स्वभाविकरीत्या कस्यचित् पुरुषस्य जीवने आगच्छति इत्युक्ते इट्स् नाट् सम् टैप् आफ़् ड्रै प्राक्टिस् रैट् इट् इट् बिकम्स् वेरि डिफिकल्ट् because the mind is going to get excited uh, mind manaha sarvada akarshitam bhavati vastubhah ataha tasmad mukti hi katam vandanaat mukti hi katam iti cet manasah alambanam bav, anya bhanya vastu bhavet alamana kah alamana artham anya vastu kim iti cet parmatma idi manaha parmatmana saha sambandham vartate tarhi anya vart, anyani vastu ni manasah aakarshanam कर्तुं न शक्नुवन्ति इत्येव उचितमार्गः तर्हि तेन किं भवति इति चेत् वैराग्यं स्वाभाविकरीत्या योगनिश्चितजीवने आगच्छति तदानीम् अस्माकं साफल्यमपि समी समीचीनतया साफल्यं भवति तदर्थम् अधिकः प्रयासः अपि न अपेक्षितः मनः स्वाभाविकरीत्या वस्तुभ्यः रञ्जितं न भवति यतोहि मनः परमात्म परमात् परमात्म किं मनम मनः आ, परमात्मने रञ्जितं वर्तते अथवा परमात्मना रञ्जितम् अस्ति मन मनः इति कृत्वा अन्य अन्यानि वस्तूनि आकर्षितानि न भवन्ति इति अयमेव विषयः अस्ति वैराग्यं तर्हि म मनः किमर्थं परमात्मना न रञ्जितं भवेत् लो, तदेव उचितमस्ति अस्ति किमर्थं लो लोके यानि वस्तूनि सन्ति किमर्थं तेन किमर्थं तैः रञ्जितं भवेत् परमात्मना रञ्जितमस्ति चेत् स्वाभाविकतया वैराग्यम् आगच्छति मनसि अयमेव तत्र इत्युक्ते उदाहरणार्थं भोजनमस्ति कश्चन यः पुरुषः अस्ति सः साधकः नास्ति सः परमात्मना सह सम्बद्धः नास्ति तर्हि तस्य कृते तु तस्य मनः भोजनेन तु रञ्जितम् तर्हि तत् सः किमर्थं भोजनं स्वीकरोति इत्युक्ते रुचि रुछी, रुचिं प्राप्तुमेव स्वीकरोति परन्तु यः साधकः अस्ति सः तथा न करोति सः किं कथं पश्यति भोजनं कथं पश्यति सः भोजनं भोजनम् इन्धनरूपेण पश्यति भोजनं मम शरीरस्य इन्धनम् इति चिन्तयति तदानीं सः सर्वदा चिन्तयति यद् इन्धनं मम शरीरे गच्छति तत् समीचीनम् अस्ति वा चिन्तयति यदि साधकः नास्ति तदानीं सः किमर्थं खादति इति चेत् केवलं रुचिं प्राप्तुमेव खादति यदा मनः परमात्मना सह संलग्नम् अस्ति तदा वयं भोजनं केवलम् इन्धनरूपेण वयं पश्यामः केवलं शरीरस्य वर्धनार्थं पोषणार्थं भोजनम् अपेक्षितम् अस्ति अयमेव भोजनस्य उचितव्यवहारः तदानीम् अधिकमपि वयं न खादामः ओवर् ईटिङ्ग् न भवति अनुचित पदार्थानां खादनं न भवति अयमेव उचित प्रयोगः भोजनस्य तर्हि तादृशसन्दर्भे तु भोजनस्य अनुचितप्रयोगः न भवति यतोहि मनः परमात्म परमात्मना रञ्जितं वर्तते अयम् अयमस्ति प्रथमः अस्ति वैराग्यं तत्र आ, विद्या माया इति उक्तं खलु उचितकर्म तत्र उचितकर्म कर्मणा सह सम्बद्धम् अस्ति इदानीम् अग्रे अस्ति विवेकः इति अस्तु किं प्रिया भगिनी पठितुमिच्छति वा आं भगिनी पठतु सुभाषयोः शुभाशयोः मध्ये शुभा अशुभयोः शुभासुभयोः शुभा अशुभयोः मध्ये विवेचनम् एव विवेकः मध्यस्य मादं जनयि मादम् मध्यस्य मादं, मादं जनयितुं प्रयोगः इति आलोच आलोचनादोषाय अस्ति हा तस्यैव च औषधत्वेन प्रयोगः इति विचारः साधुः एतादृशं विवेचनम् एव विवेकः एकम् एव वस्तु प्रयोगपरिवर्तनेन शुभाशुभं वा भवितुम् अर्हति तयोः मध्ये विवेच विवेचनम् अस्ति विवेकः विवेकेन एव मनः एकस्मिन् वस्तुनि सद्भावता अथवा दुष्टता अथवा तस्य उपयोगिता निर्धारयितुं शक्यते अतः वैराग्यस्य अनुसरणं कर्तुं विवेकः आवश्यकः मुक्तिं प्राप्तुं वैराग्यस्य महत् योगदानं वर्तते एवं वैराग्यविवेकी एवं सत्कर्मणि अथवा विद्यामया विद्यामाया अस्ति वैराग्यविवेकौ वैराग्यविवेकौ एव सत्कर्मणि अथवा विद्यामाया अस्ति सो so, अत्र शुभाशुभ विवे एतत् शुभं वा अशुभं वा एतत् तस्मिन् मध्ये तयोः मध्ये विवेकः एव विवेचनम् एव विवेकः सो किं so, सम्यक् अस्ति एतत् शुभं वा अशुभं वा सम्यक् चिन्तयित्वा कार्यं कुर्मः चेत् तदेव विवेकः Uh, uh, तत्र uh, बहवः जनाः मिड्ल् uh, पाक् इति स्वीकृतवन्तः मध्यस्थमा मादं मार्गं वा भगिनि मादम् मध्यस्य मादम् इत्युक्ते मध्य मध्यः इत्युक्ते आल्कोहाल् मादम् इत्युक्ते इण्टाक्सिकेशन् आल्कोल् इन्टाक्सिकेण्ट् तत्तु समीचीनं नास्ति चित्तप्रयोगः नास्ति आम् तथैव हा किन्तु औषधत्वेन प्रयोगः इति विचारः साधु सो किमपि औषधस्य औषधार्थं प्रयोगः भवति एव यदा प्रसूतः स्त्री प्रसूतः स्त्री किञ्चित् एक एक स्पून् ब्राण्डि ददाति कर्नाटक प्रान्ते तत् औषधार्थम् अस्ति अतः तत् प्रयोगं साधु सो एतादृशं सम्यक् रीत्या चिन्तयित्वा कार्यं विवेकः एवं हा वस्तुप्रयोगपरिवर्तनेन सो शुभाशुभं वा भवितुमर्हति वस्तुप्रयोगमपि किं प्रयोगेन किं भवति इति मोबैल् फोन् स्वीकुर्मः इदानीं मोबैल् फोन् डूम् स्क्रोलिङ्ग् इति बहवः कुर्वन्ति बहवः कुर्वन्ति सो अतः तत्र तदपि एतत् वस्तु प्रयोगं करोमि चेत् किमर्थं प्रयोगं कुर्मः कक्षायां नो चेत् सम्भाषणार्थं किमपि सूचनार्थम् उपयोगं कुर्मः चेत् तत् शुभं भवति किन्तु केवलं टैम्पास् इति वदामः किल समयस्य व्य व्यय व्यय व्यय व्य व्यवदं तत् अहं तत वयं जङ्गमं जङ्गमवाणी स्वीकुर्मः चेत् तत् अशुभं भवति अतः तत् विवेकस्य आवश्यकतां भवति विवेकेन विवेकेन एव मनः एकस्मिन् वस्तुनि सद्भावता अथवा दुष्टता अथवा तस्य उपयोगिता निरायितुं शक्यते निर्धारयितुं निर्धारयितुं शक्यते वस्तु तथैव तु मम मनः तस् तत् तस विषये किं रागं दत्त कया रञ्जितं करोति तद् तस्मात् एव वस्तूनि एकस्मिन् वस्तूनि तत् सद्भावता मनः एव मन विवेकेन एव मनः निर्धारितुं शक्यते इत्युक्ते मनः एव मनसि एकं पुनः पुनः वयं चिन्तनीयम् एतत् वस्तुनि दुष्करं वा मम कृते दुष्टः वा इति मनसि विवेकं कृत्वा एव निर्धारयितुं शक्यते अतः वैराग्यस्य अनुसरणं कर्तुं विवेकः आवश्यकतः विवेकः बहु बहु एकः विवेक वैराग्यस्य विषये एण्ड् मुक्ति मुमुक्षुः सर्वदा वैराग्यस्य उपयोगं करोति एतत् महत् योगदानम् अपि वर्तते एवं वैराग्यविवेकौ एव सत्कर्मणि अथवा विद्यामाया अस्ति सो हा वैराग्यविवेकौ सो अतः विद्यामाया सत्कर्मणि अथवा विद्यमान अतः एवं वैराग्यविवेकौ वैराग्यं च विवेकः च सत्कर्मणि अथवा विद्यामाया अस्ति समीचीनं विद्यामायाः अंशः अस्ति वैराग्यं विवेकः विद्यामायाः द्वौ अंशौ वैराग्यं विवे विवेकः अस्तु अस्तु विवेकस्य विषये इतोपि अधिकचर्चा अग्रे भविष्यति परन्तु अत्र एकं वक्तव्यम् अत्र किम् अस्ति इति चेत् नित्यानित्यवस्तुविवेकः इति तु अवगन्तव्यम् अस्मिन् जगति नित्यवस्तु किम् अनित्यवस्तु किम् इति अनयोः भेदः कः इति अस्माभिः ज्ञातव्यम् येन वयं यद् यस्य वस्तुनः सः अस्माकं व्यवहारः भवति तदानीं वयम् अवगन्तुं शक्नुमः सः तद्वस्तु नित्यं वा अनित्यं वा इति वयम् अवगन्तुं शक्नुमः तदानीं तत्र विवेकभावः अपि आवश्यकं विवेकभावः इत्युक्ते विवेकः नित्यानित्यवस्तु विवेकः किं वस्तु नित्यं किम् अनित्यं तदानीं मनसि भ्रमः भवति यद्वस्तु अनित्यम् अस्ति तस्य पृष्ठतः वयं न गच्छामः अस्मिन् जगति एकमेव वस्तु अस्ति यद् नित्यवस्तु अस्ति तद् अस्ति परमात्मा परमपुरुषः यदा मनः एतादृशभेदं स्थापयितुं शक्नोति तस्मिन् मनसि विवेकः अस्ति इति वयं वक्तुं शक्नुमः तत्र तस्मिन् मनसि विवेकः अस्ति नित्यवस्तु किम् अनित्यवस्तु किम् इति विवेचनं कर्तुं विवेकः अस्ति इति वयं वक्तुं शक्नुमः तदानीं मनः लोके यानि वस्तूनि सन्ति तैः मनः रञ्जितं न भवति तदानीं मनसि किमपि कस्यचित् वस्तुनः अभावः अस्ति इति भावः नास्ति इत्युक्ते यदा वयं यदा मनः परमात्मना रञ्जितं नास्ति तदानीम् अभावस्य भावः भवति ओ मनसि आकर्षणम् कस्यचित् वस्तुनः विषये आकर्षणम् मनसि तादृशवस्तु न लभ्यते चेत् मनसि अभावः भवति मनसि वेदना भवति दुःखं भवति परन्तु यदा मनसि परमात्मनम् प्रति आकर्षणम् अस्ति तदानीं लोके यानि वस्तुनि सन्ति तैः मनः रञ्जितं न भवति इति कृत्वा मनसि अभावस्य भावना अपि न भवति ओ एतद् न लब्धम् इति वेदना अपि न भवति यतोहि मनः तत्र नास्ति एव जनाः एवमेव कुर्वन्ति इत्युक्ते यद् यदिच्छन्ति तद् न लभ्यते चेत् अभावस्य भावः दुःखं भवति तदर्थं ते किं कुर्वन्ति इति चेत् झटिति तादृशविषयात् परिहारार्थम् अधिकं भोजनं कुर्वन्ति यत्किमपि लभ्यते तत् खादन्ति मनसि वेदना अस्ति इति कृत्वा यत् सर्वं किमर्थं जायते इति चेत् नित्यानित्य वस्तुविवेकः नास्ति मनः भ्रमितमस्ति तत्र तस्मिन् क्षणे भ्रमितमस्ति अतः यत्किमपि भोजनं लभ्यते तद् ते खादन्ति यतोहि ते चिन्तयन्ति तादृशभोजनात् तत्र मनसि वेदना न्यूना भवति इति कृत्वा वस्तुतः मनः तु किम् इच्छति मनः तु परमात्मानम् इच्छ इच्छति वयं न अवगन्तुं शक्नुमः जनाः अनित्यवस्तु नित्यवस्तु इति भावयन्ति तर्हि अत्र यता तत्र मद्यपानं मद्यपानं तु अनित्यवस्तु अस्ति परन्तु जनाः किं चिन्तयन्ति मद्यपानग्रहणेन मम समस्यानां निवारणं भवति झटिति समस्यानां निवारणं भवति इति कृत्वा तत्र मद्यपानस्य दुरुपयोगं कुर्वन्ति तत्र तत् मद्यपानस्य लक्ष्यं तु मनसः मनसि वेदनायाः मोचनार्थं नास्ति खलु तस्य लक्ष्यं मद्यपानस्य लक्ष्यं तद् नास्ति मनः सर्वदा मुक्तिं प्राप्तुं तत्र लोके व्यवहारे ये क्लेशाः सन्ति तेभ्यः मुक्तिं प्राप्तुम् इच्छति इत्युक्ते लाइफ इस् फुल आफ़् प्रेजर्स् अण्ड् स्ट्रेस् तस्मात् मुक्तिं प्राप्तुम् इच्छति जन जनः जनाः मुक्तिं प्राप्तुमिच्छन्ति तर्हि परमपुरुषं विहाय अन्यत् यत्किमपि वस्तु अस्ति यद् वयं समस्यानां निवारणार्थं स्वीकुर्मः तदानीं तादृशवस्तूनां दुरुपयोगः अवश्यमेव भवति तर्हि अत्र नित्यानित्य नित्यान् आवश्यकः अस्य विषये अवगच्छन्ति चेत् तदानीं ते अवगच्छन्ति लोके यानि वस्तूनि सन्ति तानि सर्वाणि अनित्यानि तानि वस्तूनि मम मम आनन्दार्थम् एतानि वस्तूनि न सन्ति मम मम आनन्दः वस्तुतया परमात्मा वस्तुतः परमात्मा परमात्मानतः परमात्मातः एव भवति इति कृत्वा तदानीं मनः भ्रमितं न भवति मम आनन्दः तु तत्र परमपुरुषात् एव आगच्छति इति यदा तत्र विवेचनमस्ति तदानीं वस्तूनां दुरुपो दुरुपयोगः न भवति इति वैराग्यं विवेकः द्वयमपि मिलित्वा कार्यं आ, द्वयं मिलित्वा कार्यं करोति इति अस्ति अत्र वैराग्यं विवेकः तर्हि इदानीं किञ्चित् गच्छामः अत्र सरलाभगिनी पठति अस्ति वा भगिनि अस्तु तर्हि अत्र भगिनी समयः ओके okay. तर्हि अत्र स्थगनं कुर्मः समयवस्तुतः अतीतः अत्रैव स्थगनं कुर्मः अत्र कोऽपि संशयः अथवा किमपि वक्तव्यं वा तर्हि धन्यवादः नमस्कारः धन्यवादः नमस्कारः भगिनी धन्यवादः भगिनी तत् कक्षायाः लेवेन् ओ क्लाक् आसीत् खलु तत् कक्षायाः रेकार्डिङ्ग् अस्ति वा आं प्रेषयामि प्रेषयामि भगिनि हा धन्यवादः नमस्कारः